श्रीहरये नमः अत तृतीयोऽध्यायः राजोवाच निसंयदेवः स्वपटोपवर्णितं प्रत्याह किं तान् प्रतिधर्मराजः एवं हताज्ञो विहतान् मुरारे नैदेशिकैर्यस्य वसे जनोक्यं यमस्य देवस्य न दण्डभङ्ग कुतश्च नर्षे श्रुतपूर्व आसीत् एतन्मुने वृच्छति लोकसंशयं नहि त्वधन्य इति मे विनिश्चितं श्रीशुक उवाच भगवत्पुरुषैराजन् यां याः प्रतिहदोद्यमाः पतिं विज्ञापयामासोर्यमं संयमनीपतिम् यमदूतावूचूं कतिः सन्तीह सास्तारो जीवलोकस्य वै त्रैविध्यं कुर्वतः फलाभिव्यक्तिहेतवः यतिष्युर्बकभवो लोके शास्तारोदण्डधारिणः कस्य स्यातां न वा कस्य मृत्युश्चामृतमे भव किन्तु शास्त्रो बहुत्वे स्यात् बहुनामिह कर्मिणां अतस्त्वमेको भूता न सेश्वराणामधीश्वरः सास्तादण्डधरो नृणा सुभाशुभविवेचनः सुभा तस्य ते विहतो दण्डो नलोके वर्तते धुना चतुर्भिरद्भुतैः सिद्धैराज्ञाते विप्रलम्बिता नीयमानं तवादेशादस्माभिर्यतनागृहान् व्यमोचयन् पाचकिनं चित्वा पासान् प्रसह्यते तांस्तेवेदितुमिच्छामो यतिनो मन्यसे क्षमं नारायणेत्यभिहिते मा वैरित्याययोर्धृतं त्रिशुक उवाच इति देवस आपृष्ठ प्रजा यमः प्रीतस्वधूतान् प्रत्याह स्मरन् पदाम्बुजं हरे हे यमवुवाच परो मदन्यो जगतस्तस्तुषश्च ओतं प्रोतं भटवद्यत्प्रविश्वं यदं सतोस्ति जन्मनाशा न स्योथ वद्यस्य वसे लोकः यो नाम भिर्वासि जनान् निजायां बध्नानि तद्यामि वधाम भीर्घाः यस्मै बलिं त इमे नाम कर्म निभन्तभक्ताश्चकिता वहन्ति अहम् महेन्द्रो निरृति प्रचेता सोमोऽग्नीरिसपवनोर्घोभिरिञ्च आदित्यविश्वे वसुभोथसाध्या मरुद्गणारुद्रगणाः ससिद्धाः अन्ये च ये विश्वसृजोमरेशाधयोः वप्रधाना अपि किं ततोऽन्ये यं वै न गोपीर्मनसा सुभिर्वा हृथा गिरा वसुभृतो विचक्षते आत्मानम् अन्तर्हृति सन्तमात्मानं चक्षुर्यथैवा हृतयस्ततः अस्यात्मतन्त्रस्य हरे अधीसितो परस्य मायातिपदेर्महात्मनः प्रायेण दूता इहैव मनोहरा चरन्ति तद्रूपगुणस्वभाववाः भूतानि विष्णोऽसुरपूजितानि सुरपूजितानि, लिङ्गानि महाद्भुतानि रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्या नथ सर्वतश्च धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विधुर्षयो असुरा मनुष्या कुतस्य विद्याधरचारणाधयः स्वयम्भोर्नारतः शम्भो कुमारकपिलो मनुः प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ्वातसैते विजानीमो धर्मं भागवतं भटाः गुह्यं विशुद्धं दुर्भोतं यं ज्ञात्वा अमृतम् अश्नुते एतावानेव लोकेऽस्मिन् पुंसां धर्मपरस्मृतः भक्तियो गो भगवति तन्नाम गृहणादिभिः नामोच्चारणमाहात्म्यम् हरे पश्यत पुत्रकाः अजामिलोऽपि येनैव मृत्युपाशाधमुच्यताम् एतावत्तलमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नां विकृष्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् प्रायेण वेतदधितं न महाजनोऽयं देव्या विमोहितमतिर्भत त्रय्यां झटि कृतमथैर्मदोष्पुम्बितायां वैतानिकेमकति कर्मणि युज्यमानः एवं विमृश्य सुति यो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगं ते मे न दण्डमर्हन्त्यथ यक्त्यमीषां शात्पातकं ततपि हन्त्युरुकाय ते देवसिद्ध हरिगीतपवित्रगाता येषा तव समदृशो भगवत्प्रपन्नाः तान्नोपसीदत हरेर्गदयाभिगुप्तान् नैषाम्बयं न च वयः प्रभवाम दण्डे तानायनवमसतो विमुखान्मुगुन्त पादारविन्दमहरन्धरसातजस्रं निष्किञ्चनैः परमहंसकुलैरसज्ञे जुष्टाद्गृहे निरयवर्तमनिबद्धतृष्णान् जिह्वानभक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दं कृष्णाय नो नमति यश्चिरये नयध्वम् असतो कृत कृतविष्णुकृत्यान् तत्क्षंयतां स भगवान् पुरुषः पुराणो नारायण स्वपुरुषैर्यदसत्कृतं नः स्वानामहो न विधुषां रसिताज्झलिनां नमः पुरुषाय भूम्ने श्रीशुक उवाच तस्मात् सङ्कीर्तनं विष्णोर् जगन्मङ्गलमम्मं हसां महातामभिगौरव्य विद्यैकान्तिकनिष्कृतिं शृण्वतां गृणतां वीर्याणि उद्धामानि हरेर्मुहुः यथा सुजातया भक्त्या शुद्धेन्नात्मा व्रताधिभिः कृष्णाघ्रिपद्ममथुलिन्न मायागुणेषु रमते वृजिनावहेषु अन्यस्तु कामःत आत्मरजः प्रमाष्टम् ईहेत कर्म यत एव इत्थं स्वभर्दृगतितं भगवन्महे त्वं संस्मृत्य विस्मितधियो यमकिङ्करास्ते नैवाश्च्युताश्रयजनं प्रतिशङ्कमाना द्रष्टुं च बिभ्यदि ततः इतिहासमिमं गोह्यं भगवान् कुम्भसम्भवः कथयामासमलय आसीनो हरिम् अर्चयन् इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते यमपुरुषसम्बादे द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजिके जय